ओ ध्यायामोदबलावकुण्ठनवधीं तेजोमयीं नैष्ठिहीम् स्निग्धापाङ्गविलोकिनीम् भगवतीम् मन्दस्मिधश्रीमुखीम् वात्सल्यामृतवर्षिणीम् सुमधुरम् सङ्गीर्तनालापिनीम् श्यामाङ्गीम् मधुसिक्तसूक्तिम् अमृतानन्दात्मिकाम् ईश्वरी ओम् अमृतेश्वर्यै नमः ओम् अमृतेश्वर्यै नमः ओम् अमृतेश्वर्यै नमः ॐ गणाना आम् त्वा गणपतिकम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन् मूधिसादनम् ओम् महागणपतये नमः प्रणो देवी सरस्वती वाजेभिर्वाहिनीत्र्यवतु वाग् शिवात्मानं श्रीरुद्ररूपं ध्यायेत् शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकं गङ्गाधरं दश भुजम् सर्वाभरणभूषितम् नीलग्रीवम् शशाङ्काङ्कम् नागयज्ञोपबीतिनम् व्याघ्रचर्मोत्तरीयम् च वरेण्यमभयप्रथम् कमण्डल्वक्षसूत्राणाम् धारिणम् शूलपाणिनम् ज्वलन्तम् पिङ्कलचा शिखामुद्योधारिणम् विषस्कन्धसमारूढम् उमादेहार्धारिणम् अमृतेनाप्लुतम् शान्तम् दिव्यभोगसमन्वितम् दिग्देवतासमायुक्तम् सुरासुरनमस्कृतम् नित्यम् च ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानम् रुद्रम् वै विश्वरूपिणम् एवम् ध्यात्वा द्विज सम्यक् ततो यजनमारभेत् ओके लट् स्पीड्लोन् yeah i i, know, I understood that at least i was going little faster so i just uh, slowed down so i'll keep that speed if that's okay uh -huh. or if you want me to slow down more let me know no this is good okay oh Prasen sorry very are there call call huh anyone Pollen else from the call yeah uh, sajada and sarla are over there okay i'm also there yeah the slower speed is much better okay नेक्स्ट् पारग्राफ़् प्रजनने ब्रह्मा तिष्ठतु ओके प्रजनने ब्रह्मा तिष्ठतु पाधयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्वोरिन्द्रस्तिष्ठतु जडरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे बसवस्तिष्ठन्तु वक्त्रे सरस्वतीतिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयोश्चन्द्रादित्योतिष्ठेताम् कर्णयोरश्विनोतिष्ठेताम् ललाडे रुद्रास्तिष्ठन्तु मूर्ध्न्यादित्यास्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायाम् वामदेवस्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतः शूली तिष्ठतु पार्श्वयोः शिवा शङ्करो तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतो अग्निर्ज्वाला मालापरिवृतस्तिष्ठतु सर्वेष्वङ्गेषु सर्वा देवथा यथास्थानम् तिष्ठन्तु माम् रक्षन्तु महाजनान् रक्षन्तु के योति लिटल् बिकोस् इ I I Shruti is not my forte so you have to probably uh, we have to do something about it because you have to have uh, a kumbura or something for me Agnirme uh, that Shruti Ganga uh, what do you think you you are better at it Ah uh, ill you're right ma a konjo higher irke why don't you start him off with the first word so he can carry from there hey you do right you you are better at it so why don't you start you go with him अग्निर्मे वाचि श्रुतः अपि पा अग्निर्मे वाचि श्रुतः अग्निर्मे वाचि श्रुतः अग्निर्मे वाचि श्रुतः वाघृदये वाृदये वाघृदये हृदयम्मयि ृदयं मयी हृदयं मयी अहमृते अहम् अमृतेः अहमृतेः अमृतम् ब्रह्मणि अमृतं ब्रह्मणि अमृतम् ब्रह्मणि आयुर्मे प्राणे श्रुतः े प्राणे श्रुतः वायुर्मे प्राणे श्रुतः प्राणो हृदये प्राणो हृदये प्राणो हृदये हृदयं मयि हृदयं मयि हृदयं मयि अहमृते अहम् अमृते अहम् अमृते अमृतम् ब्रह्मणि अमृतम् ब्रह्मणि अमृतम् ब्रह्मणि अमृत ब्रह्मणि अमृतेट् बेटर् प्रक्टिस् रैट् टु इङ्ग् टुगेदर्ूर्यो मे चक्षुषिश्रितः चक्षुर्हृदये हृदयं अमृतम् ब्रह्मणि सूर्यो मे चक्षुषिश्रुतः चक्षुषृदये हृदयम् मयि अहमृतेः अमृतम् ब्रह्मणि सूर्यो मे चक्षुषि श्रुतः चक्षुषृदये हृदयं मयि अहमृतेः अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रुतः मनोहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रुतः मनोहृदये हृदयं मयि अहमृतेः अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रुतः मनोहृदये ृदयं मयि अहमृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रुताः श्रोत्रघुं हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि दिशो मे श्रोत्रे श्रुताः श्रोत्र श्रोत्रगुं हृदये हृदयमृते अमृतं ब्रह्मणि इवीवन् डन् आम् आत् मा ओकेट् मोर्ट् आफ़् देट् मे श्रोग्रे श्रोग्रम्भी अहम् अमृते अमृतम् ब्रह्मणी आ भो मे रेतसि स्विताः रेतो हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आपो मे रेतासि श्रुताः रेतो हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आपो मे रेतसि श्रुताः आपोमे रेतसिश्रिताः रेतोहृदये हृदयं मयि अहमृतेः अमृतं ब्रह्मणि आपो मे रेतसिश्रिताः रेतोहृदये हृदयं मयि अहमृतेः अमृतं ब्रह्मणि पृथ्वी शरीरे श्रुता शरीरघुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पृथ्वी शरीरे श्रुताः शरीरघुं हृदये हृदयं मही अहमृतेः ब्रह्मणि ृता <laughs> हृदयं मयि अहम् अमृतेः अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रुताः शरीरगु हृदये हृदयं मही अहम् अमृतेः अमृतम् ब्रह्मणि एन शरीर शरीरगुम् लो जीर्कलशरीरम्मा शरीरगु हृदये शरीरगुम् देरस्नो स्विताहन्दे पृथ्वीमे शरीरे श्रुता सो दैट जस्ट कट आउट दैट एच एट द एंड ओके हां आई टूक इट या ओके ओके दैट इज दैट मोस्ट पीपल हैव मेड दैट मिस्टेक इवन इन द मंदरपश्कम दैट मिस्टेक इज देयर सो वी हैव टू टेक इट आउट ओके ओके उन्ना औरुदुम सोलिड लामा या श्योर पृथ्वीमे शरीरे श्रुता शरीरगुं हृदये हृदयम हयि अहममृतेः अमृतम् ब्रह्मणि ओषधि वनस्पतयो मे लोम सुश्रिताः लोमानि हृदये हृदयं मही अहमृते अमृतम् ब्रह्मणि ओषधि वनस्पतयो मे लोमोऽ सुश्रिताः लोमानि रोमसु रोमसु मीन्स् ओम ओषधि वनस्पतयो मे लोम सुश्रिताः लोमानी हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि ओषधि वनस्पतयो मे लोम लोमानी हृदये हृदयं मयि अहम् अमृते अमृतम् ब्रह्मणि औषधि इस शोट इकारा अण्ड् सेमथिङ्ग् लोमानि ओषधि वनस्पतयो मे लोम लोमानी हृदये इोमानि हृदये दर्स् अस्वकार ओके जस्ट्वान् चाण्टु करे इन्द्रो मे बले श्रुतः बलगुम हृदये हृदयं मही अहम् अमृते अमृतम् ब्रह्मणि इन्द्रो मे बले श्रुतः बलगुं हृदये हृदयं मयी अहमृते अमृतं ब्रह्मणि इन् इन्द्रो मे श्रुतः बलगुं हृदये हृदयं मयी अहमृते अमृतं ब्रह्मणि जन्यो मे मूर्ध्नि श्रितः मूर्दा हृदये हृदयम् मयि अहमृते अमृत ब्रह्मणि पर्जन्यो मे मूर्ध्निश्रुतः मूर्धा हृदये हृदयं मयी अहमृते अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रुतः मूर्धा हृदये हृदयं मयी अहमृते अमृतम् ब्रह्मणि ईशानो मे मन्यो श्रुतः मन्युर्हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि ईशानो मे मन्यौ श्रुतः मन्युर्हृदये हृदयं मयि अहममृतेः अमृतम् ब्रह्मणि ईशानो मे मन्यौ श्रुतः मन्युर्हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आत्मा मम आत्मनि श्रुतः आत्मा हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आत्माम् आत्मानि श्रुतः आत्मा हृदये हृदयम् मयि अहमृतेः अमृतम् ब्रह्मणि आत्मा आत्मानि श्रुतः निःश्रुतः आत्मात्मनि श्रुतः आत्मान आत्मनि श्रुतः आत्म आत्मा हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आत्मा आत्मात्मा आत्मनि श्रुतः आत्मा आत्मनि श्रुतः आत्मा हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि Sure, no पुनर्म पुनर्म आत्मा पुनरायु राग पुनर्म आत्मा पुनरायुरागात् पुनर् पुनर्म आत्मा पुनरायुरागात् अभ्या पुनरायुरागात् करेक्ट् यु सन् करेक्ट् पुनरा पुनर्म आत्मा पुनरायुरात् पुनर्म आत्मा पुनरायुरागात् पुनः प्राणस्पुनरागूदमागात् पुनः पुनः पुन पुनः प्राणः पुनरापूतमागात् पुनः प्राणः पुनराकूतमागात् पुनः प्राणः पुनराकूतमागात् वैश्वानरो रश्मिभिर्वावृधानः वैश्वानरो रश्मिभिर् वृदा वैश्वानरो रश्मिभिर्वा वृधानः वैश्वानरो रश्मिभिर्वा वा वृधानः रश्मिभिर्वा वृधानः रश्मिभिर्वा वृधानः वैश्वानरो रश्मिभिर्वा वैश्वानरो रश्मिभिर्वा वृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः अन्तस्तिष्ठत्वमृत्यस्य गोपाः अन्तस्तिष्टत्वमृतस्य गोपाः अन्तस्तिमृतस्य अमृतस्य गोपाः अन्तस्तिष्ठतु अमृतस्य गोपाः अन्तस्तिष्ठत्वमृतस्य तिष्ठत्वमृतस्य गोपाः अन्तस्तिष्ठत्वमृतस्य गोपाः अन्तस्तिष्ठत्वमृतस्य सन्धिवीन् दोस् तु बट् इप्लिटेड् मृतस्य गोपाः मीन्स् and opposite of each other, Ah! Right? Yes. <laughs> like Satyam and asatyam, okay? madharam, mm -hmm. so. Gopaha Gopaha Good. So shall we Oof. do this लैक् सत्यम् असत्यं ओके धर्म सो अन्तस्तिष्ठतस्य गोपाः सो शाल् विराग्राफ़् टुगेदर् वन्स् बिकोस् दिस् इस् ल सो can yeah. we go slow and can you listen to us uh, so that you know we are doing it right yeah so we will stand together once and then each of you can ch uh, chant it separately okay okay okay agnirme vajishradha starting from there okay till andashtishtam pradasigopaha that paragraph uh, okay 1 2 3 agnirme vajishradha magrthaye ritayamahi अहममृते ए अमृतम् ब्रह्मणि वायुर्मे ए प्राणो हृदये हृदयं मही अहमृते ए अमृतम् ब्रह्मणि सूर्यो मे चक्षुषिस्वितः चक्षुर्हृदये हृदयं मही अहमृते ए अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनोहृदये हृदयं मही अहममृते ए अमृतम् ब्रह्मणि दिशो मे श्रोत्रे एस्मिताः श्रोत्रघूंहृदये हृदयं मही अहमृते ए अमृतम् ब्रह्मणि आपूमे रेतसि श्रिताः ृदो हृदये हृदयं मयि अहमृते ए अमृतम् ब्रह्मणि पृथिवीमे शरीरे श्रिता शरीरगुहृदये हृदयं मयि अहममृते ए ब्रह्मणि ओषधिवनस्पतयोमे लोम सुश्रिताः लोमानि हृदये हृदयं मयि अहमृते ए अमृतम् ब्रह्मणि इन्द्रो मे बले ए श्रितः बलघूहृदये हृदयं मयि अहममृते ए अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रितः मूर्धा हृदये हृदयं मयि अहमृते ए अमृतम् ब्रह्मणि ईशानो मे मन्यो श्रितः मन्युर्हृदये हृदयं मयि अहममृते अमृतम् ब्रह्मणि आत्मा मम आत्मनि श्रितः आत्मा हृदये हृदयं मयि अहममृते अमृतम् ब्रह्मणि पुनर्म आत्मा पुनराचुरागात् पुनः प्राणः पुनरापूनमागा आत् वैश्वानरो रश्मिभिर्वा वृधानः अन्धस्तिष्ठत् गोपाः ओके इनिबडि वाण्ट् ट्रै दिस् अग्निर्मे वाचि श्रुतः वागृदये हृदयं मयि अहम् अमृते ब्रह्मणि वायुर्मे प्राणे श्रुतः प्राणो हृदये हृदयं मयि अहम् अमृते ब्रह्मणि सूर्यो मे चक्षुषिश्रुतः चक्षुहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि चन्द्रमा मे मनोहृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि दिशो दिशो मे श्रोत्रे श्रुताः श्रोत्रगुंहृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयं मयि अहम् अमृते अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रुता शरीरगुं हृदये हृदयं अमृते अहमृते अमृतम् ब्रह्मणि ओषधीवनस्पतयो मे लोम सुश्रुताः लोमानि हृदये हृदयं मयी अहमृते अमृतम् ब्रह्मणि इन्द्रो मे भले श्रुतः बलगुं हृदये हृदयं मयि अहम् अमृतं अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रुतः मूर्धा हृदये हृदयं मयी अहम् अमृतं अमृतम् ईशानो मे मन्यो श्रुतः मन्युर्हृदये हृदयं मयि अमृते अमृतं ब्रह्मणि आत्मा मत्मानि श्रुतः आत्मा हृदये हृदयं मयि अहम् अमृतेः अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरगात् पुनः प्राण पुनराकृतमागा सारी मेके पुनः प्राण पुनराकृतमागात् पुनप्राण पुनरागात् पुनरागूतमागात् वैश्वानरो रश्मिभिर्वा विधानः अन्तस्ति त्वमृतस्य गोपाः ओन्लि जस्ट् मिस्टेक् विच् इस् आत्माम आत्मनि श्रुतः आत्मानि श्रुतः आत्मात्मनि श्रुतः मनीर् इस् बोदम् आगात् देस् ए शोर्ट् यु दर् वन् हेस् ए लोङ्ग् टु पुनर् आत्मा पुनरायु रागात् दु रागात् देन् देस्टोन् इस् पुनः प्राण पुनरापूमागा आत् पुनर् आत्मा पुनरायु रागात् पुनः प्राणकूतमागात् ऐ के ट्रै अग्निर्म अग्निर्म वाचिश्रितं वाचिश्रितः अग्निर्मे वाचिश्रितः वा हृदये हृदयं मयि अहम् अमृते अमृतम् ब्रह्मणि वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि सूर्यो मे चक्षुषिश्रितः चक्षुर्हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि चन्द्रमामे मनसि श्रुतः मनोहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि दिशो दिशो मे श्रोत्रे श्रुताः श्रोत्रे श्रोत्रे ए श्रुताः दिशो मे श्रो श्रोत्रे श्रुताः श्रोत्रगुम्हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आपो मे रेतसिश्रुताः रेतो हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रुता शरीरगुमहृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि षधि वनस्पतयो मे लोम सुश्रुताः लोमानिहृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि इन्द्रो मे बले श्रुतः बलगुम्हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि पर्जन्यो मे मूर्निश्रितः मूर्धा हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि ईशानो मे मन्यो श्रुतः मूर्ध् मन्युर्हृदये हृदयं मयि अहमृते अमृतम् ब्रह्मणि आत्मात्मनिःश्रुतः आत्मा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनरायुराघात् पुनः प्राण पुनराकुतमाघात् वैश्वानरो रश्मिर्वा वृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः पुनस् प्राणे प्रण पुनरास् So, you have to, uh, this is, Vedic chanting is very especially crucial to no, no. not to say Puna, Prana, Puna, Raagva, Damagha, don't say okay. that, okay? Okay, thank you. Karla, you want to try? No, no, no, no. it will take a long time. Okay, why don't you try the first few sentences, then see how that goes. Um, Okay. अग्निर्मे वाचि श्रुतः वा हृदये हृदयं मयि अमृते अमृतं ब्रह्मणि वायुर्मे प्राणे वा वा श्रुते प्राणे श्रुतः वायुर्मे प्राणे श्रुतः प्राणो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषिसृतः चक्षुहृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रुतः मनोहृदये मयि अहमृते अमृतं ब्रह्मणि दिशो मे श्रोत्रे श्रुतः <द्धाथ> दिशो श्रोत्रे श्रुताः दिशो मे श्रोत्रे श्रिताः श्रो श्रोत्रगुं हृदये हृदयं मयि अहमृते आम अमृतं ब्रह्मणि अपो मे आपोमे रेत रेतसि श्रुताः आपोमे रेतसि श्रुताः आपोमे रेत आपो रेतसि श्रुताः रेत, रेत रेतो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पृथिवीमे शरीरे श्रुतः श्रुता ीमे शरीरे श्रुता प्रथिवीमे शरीरे श्रुता शरीरगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ओषधि वनस्पतयो मे लोम लोमसु श्रुतः लो, वनस् पतयो मे लोमसु श्रुताः लोमानि हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि इन्द्रो बले श्रुतः इन्द्रोमे बले श्रुतः इन्द्रो बले ए श्रुतः ओन्लि त्री ओन्लि टु इन्द्रो मे बले ए श्रुतः इन्द्रो मे बले ए श्रुतः बले ए श्रुतः टु टैम्स् ओके इन्द्रो मे बले ृतः इन्द्रो मे बले बले कृतःहृदये हृदयं मयि अमृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि मूर्ध हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ईशाणो ईशाणो मे मन्योसृतः मन्युर्हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि आत्माम इट्स् अकार ओकेट् नकार यि अहमृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनर् पुनर्म आत्मा पुनरायुरगा आद् पुनर्म आत्मा पुनरायुरागा आद् पुनर् पुनर् पुनरायुरागात् पुनर्म आत्मा पुनरायुरागात् पुनः पुनः प्रण प्राण पुनः प्राणराहूतमागा आद् पुनः प्राणस्पुनरापूतमागाद् पुनः प्राणस्पुनरागूता पुनः राघूतमागात् पुनराकूत घात् ओके पुनश्च पुनः प्राणराकूत् पुनरागूत प्राकूतमाघात् आकूतमा दीर्घकू पुनराकूत मा गा आत् पुनराकूत मा गुनप्राण पुनरागूद मा ग पुनप्राण पुनरागूद माघात् गा आत् डबल् गा आत् ओके ओके माघात् करेक्ट् पुनस्प्राण पुनस्प्राण पुनरापूत मा गा आत् मा गैश्व नरो नरो रश्मिभिर्वा वृ रश्मिभिर् ृधानः रश्मिभिर्वा वृधानः वैश्वानरो रश्मिभिर् Ma -vridhanah. Va Vridhanah Va Vridhanah Va Vaishwa Va-Naru Rasmibir Va Vridhanah -vri Vridha -vr -l -l Vridhanah Vridhanah Vridhanah Vridhanah Vaishwa Naru Rasmibir Va Vridhanah Correct Antas गोपाः तिष्ठत् अमृत अमृतस्य गोपाः अन्तस्तिष्ठत्वमृतस्य गोपाः अन्तस्तिष्ठत्व अमृतस्य गोपाः Oh my god I have to keep practicing it yeah it is to see it say spasil kam antastishtatvam ratasya gopaha antastishtatvam ratasya gopaha correct yeah antastishtat amratasya gopaha ratasya yeah. gopaha okay. tatasya okay. okay. sakara okay saraswati sa okay sir okay. don't say cha okay, okay. man the second half is very tongue tasting yeah very really from the youland it's a sort of tongue twisted yeah. so uh, we'll do practice it again next week listen to this and then uh, this, maybe we'll start with this uh, next week and then we can stand together and see how that goes and then maybe individually uh, also so ah okay in my thing i think the online the that aa I, it's sort of confusing for me to see it so sometimes i forget where to do aa it is marked if you have a mandrabhasham its exact who marked where it is yeah i don't have the mandrabhasham right so hey on the vigyanam website la the double course irukuma uh, yeah irukuma illa is there yeah vigyana website la i printed the of course I printed the large PDF for myself. Did uh, you print the, the English one or you printed the Sanskrit one? I printed the English one because I am Sanskrit I will have a faster version. Oh. I didn't have a English version. So I looked for a Sanskrit one and that one. Sometimes the A of the word and the A of the I can't remember. Maybe I have another problem. That is also there. Oh. Um. okay i'll try to find an other print out and i'll try to get a better one no no look at the mantra pushpam is it clearly written there yeah with yeah, the mantra pushpam you are looking at it right so i can look at this small book i don't have a problem okay okay, okay so let's wow. do the um, closing prayers uh, with the uh, lokashtastha and then we'll start with the same thing again next week thank you pa all right oh thank you सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्ते कश्चिद् ोकाः सुमस्ताः सुखिनो भवन्तु ॐ शान्तिशान्तिशान्तिः ॐ श्रीगुरुष्ो शान नमः हरिः ॐ